रावद्दशकम् परशुरामावतार अत्रे पुत्रतया पुरात्वं त्वम् अनसूयाम् हि दद्दावितो जातः शिष्यनिबन्तदन्त्रतमना दृष्टो भक्तदमेन हे कालेन तस्मै वरान् अष्टैश्वर्यमुखान् प्रतायदतित स्वेनैव शान्तेवतम् सत्यम् कर्तुमदार्जुनस्य च वरम् तत् शक्तिमात्रानतम् ब्रह्म द्वेषि च भूमिर्भरम् सज्जातो जमदग्नितो भृगुकुले त्वम् हरे रामो नाम तदात्मजेष्वरज पित्रोरदा सम्मधम् लब्धाम्नायगणश्च दुर्दशवया गन्धर्वराजेमना आसक्ताम् किल प्रतिपितो क्रोधकुलस्याज्ञया दादाज्ञादिगसोदरे सममिमाम् चित्वा दशान्तात् जीवनयोगमापितवरम् माता च तेधाध्वरान् पित्रा मातृमुदे स्तवाग्रदवियत् देनोर्निजादाश्रमात् प्रस्तायादमृगोर्गिरा हिमगिरा वाराद्य गौरीपतिम् प्राप्तो मित्रमदा प्राप्यागमस्वाश्रमम् आकेडो भगदोऽर्जुनः सुरगवी सम्प्राप्त सम्बद्गणै त्वत्पेत्रा परिपूजित पुरगतो दुर्मन्त्रिवाच पुनः गाम् क्रेतुम् तेनाभिरुन्धन्मुनी प्राणक्षेपसरोक्षगोखतशमो चक्रेण वत्सो कृत सुग्रोज्जीवितदातवाक्यचलित क्रोधोदसज्ञासमम् बिभ्रद्यातमहोदरोपनिहितम् चापम् कुटारम् चरान् आरूढः सह वाग्भिर्वत्समदाक्षु शिक्षिति पदौ सम्प्रास्तुता शङ्करम् प्राणामयुतेन सप्तदश साक्षौहिणी बिर्मः सेनानी बिरनेगमित्र निवहेर् वाजृम्बिता सत्यस्त्वक्कुटारभाणवितलन् निश्चे च सैन्योत्करो वीतेर्भ्रद्रुतनष्टचिष्टतनयस्त्वामापधत्केहेहया लीलावारितनर्मला जलवलङ्गे च गर्वापः श्रीमद्बागुसहस्रमुक्तबहुः शस्त्रास्त्रम् निरुन्धन्नमुम् चक्रे त्वय्यत वैष्णवेऽपि विपले बुद्ध्वाहरिम् त्वाम् ्यायन्तम् शित सर्वदोषमवते सोगात् परम् ते पदम् भूयो मर्ष्टितहेहयात्मजगणैस्ता ते हते रेणुका आज्ञानाम् हृदयम् निरीक्ष बगुषो घोरम् प्रतिज्ञाम् वहन् ज्ञानानीतरदायुधस्त्वमकृत विप्रदृगक्षत्रियाम् दिक्षक्रेषु कुटारयन् विशिगयन् निक्षत्रिया मेदिनी दादोज्जीवनगृन्द्रबालकुलम् त्रिः सप्तकृत्वो जयन् सन्दर्प्यात समन्तपञ्चकमः रक्तौ हृदौ के वित्रून् यज्ञे क्षमामपि काश्यबादिषु दिशन् सार्वेन युध्यन् पुनः कृष्णो मुम् निकष्णि यदीति चमितो युद्धात्कुमारैर्भवान् यस्यास्त्राणि महेन्द्रभूभृति तपस् तन्द्वन् पुनर्मज्जिता गोगर्णावधिसागरेण धर्णे दृष्ट्वा तितस्तापसै व्यादेश्वासदृतानलास्त्रचकितम् सिन्धुम् श्रुवक्षेमणात् भृगुपते वाते च सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द